आरोहवरसम्पन्नो दुर्धर्षः केनचिद् बलात् स च षोडशसाहस्रः कंस भ्रातृपुरःसरः सुनामा सदृशस्तेन सकं सम्पर्यपालयत् य आसं सर्ववर्णास्तु हयास्तस्य युधिष्ठिर सगणो मिश्रको नाम षष्टिसाहस्रमुच्यते कंस रोषमहावेगाम् शस्त्रजालमहाफेनाम् साधिवेगमहाजलाम् गदापरिघपाठीनाम् नानाकवचशैवलाम् रथनागमहावर्ताम् नानारुधिरकर्दमाम् चित्रकार्मुकल्लोलाम् रथाश्वकलिलह्रदाम्